अथ प्रथमाष्टके पञ्चमः प्रश्नप्रारम्भः वो अग्नेः कृत्तिकाः शुक्रम् परस्ताज्ज्योतिरवस्तात् प्रजापते रोहिणी पापः परस्तादोषधयोगस्तात् सोमस्येऽन्वकाविततानि परस्ताद्वयन्तोऽवस्तात् रुद्रस्य बाहू ऋगयवः परस्ताद्विक्षारोवस्तात् नित्यै पुनर्वसो पादः परस्तादार्द्रमवस्तात् बृहस्पतेऽस्तिष्यः जुह्वतः परस्ताद्विदमाना अवस्तात् सर्पाणामाश्रेषाः अभ्यागच्छन्तः परस्तादभ्या नृत्यन्तोऽवस्तात् पितृणाम् मघाः रुदन्तः परस्तादबभ्रगुंशोऽवस्तात् पर्यम्णः पूर्वे फल्गुनी जाया परस्तादृषभोऽवस्ताद् भगस्योत्तरे बहदवः परस्ताद्वहमाना अवस्तात् देवस्य स विदुरहस्तः प्रसवः परस्तात् शनिरवस्तात् इन्दस्य चित्रा ृतम् परस्तात् सत्यमवस्तात् वायोर्निष्ठ्याद् व्रतदिः परस्तादसिद्धिरवस्तात् इन्द्राग्नयोर्विशाखे युगानि परस्तात्कृषमाणा अवस्तात् मित्रस्यानु राधाः अभ्यारोहत्परस्तादभ्यारूढमवस्तात् इन्द्रस्य रोहिणे शृणत्परस्तात् प्रतिशृणदवस्तात् निरृत्ये मूलवर्हणे परिभञ्जन्तः परस्तात् परिशृणन्तोऽवस्तात् अपाम्भोर्वा अषाढाः वर्चः परस्तात् समितिरवस्ताद् विश्वेषाम् देवानामुत्तराः अभिजयत्परस्तादभिजितमवस्तात् विष्णोः श्रोणा पृच्छमानाः परस्तात् पन्था अवस्तात् वसूना विश्रविष्ठाः भूतम् परस्ताद्भूतिरवस्ताद् इन्द्रस्य शतभिषड् विश्वव्यजाः परस्ताद्विश्वक्षितिरवस्ताद् अजस्यैकपदः पूर्वे प्रोष्ठपदाः वैश्वानरम् परस्ताद्वैश्वावसवमवस्ताद् अहेर्बुध्नि यस्योत्तरे अभिषिञ्चन्तः परस्तादभिषृण्वन्तोऽवस्ताद् कूष्णोरेवतीये गावः परस्ताद्वत्सा अवस्ताद् अश्विनोरश्वनिजो ग्रामः परस्तात् सेनावस्तात् यमस्यापभरणेः अपकर्षन्तः परस्तादपवहन्तोऽवस्ताद् वूर्णापश्चाद्यते परस्ताद देवा अदधुः तत्पुण्यम् नक्षत्रम् तद्बट्कुर्लेतोपव्युषम् यदा वै सूर्य उदेति अथ च नक्षत्रम् नैति तावति तत्र सूर्यो गच्छेत् यत्र जघन्यम् पश्येत् तावति कुरु गीत यत्कारी स्यात् रुण्याः एव कुरुते एव गं ह यज्ञेषु च शतद्युम्नम् च मात्स्योनिरवसा ययाञ्चकार यो वै नक्षत्रियम् प्रजापतिम् वेद उभयोरेरङ्गोरयोर्विदुः हस्त एवास्य हस्तः चित्राशिरः निष्ट्याहृदयम् ऊरो विशाखे प्रतिष्ठानो राधाः एष वैनक्षत्रियः प्रजापतिः य एवम् वेद उभयोरेन लोकयोर्विदुः अस्मिद्दिश्चामुष्मिद्दिश्च याङ्कामयेतदुभितरम् प्रिया स्यादिति तान् निष्ट्यायाम् दद्यात् प्रियैव भवति ने वद पुनरागच्छति अभिचिन्नामनक्षत्रम् उपरिष्टादशाढानाम् अवस्ताच्छ्रोणायै देवासुराः सञ् यत्तासन् ते देवास्तस्मिन्नक्षत्रेऽभ्यजयन् यदभ्यजयन् तदभिजितोऽभिजि त्वम् यम् कामयेतानपजयम् जयेदिति तमेतस्मिन्नक्षत्रे जातयेत् अनपजयमेव जयति पापराजितमिवत् प्रजापतिः पशो न सृजत ते नक्षत्रम् नक्षत्रमुपातिष्ठन्त ते समावन्त एवाभवन् ते रेवती उपातिष्ठन्त ते रेवत्याम् प्राभवन् तस्माद्रेवत्याम् पशूनाम् कुर्वीत यत्किञ्चा वाचि नगुम् सोमात् प्रैव भवन्ति शैलम्बा इदमन्त यदतरम् तत्तारकाणाम् तारकत्वम् यो वा इह यजते अमुपुंसलोकम् नक्षते तन्नक्षत्राणाम् नक्षत्रत्वम् देवगृहावै नक्षत्राणि य एवम् वेद गृह्येव भवति यानि वा इवानि पृथिव्याश्चित्राणि तानि नक्षत्राणि तस्मादश्रीयनामग्निश्चित्रे नावस्येन्न यजेत यथा पापाहे कुरुते तादृशेव तत् देवनक्षत्राणि वा अन्यानि यमनक्षत्राण्यन्यानि कृत्तिकाः प्रथमम् विशाखे उत्तमम् तानि देवनक्षत्राणि मनोराधाः प्रथमम् अपभरणीरुत्तमम् तानि यमनक्षत्राणि यानि देवनक्षत्राणि तानि दक्षिणेन पर्यन्ति यानि तान्युत्तरेण अन्वेषामरात्स्मेति तदनुराधाः ज्येष्ठमेषामवधिष्मेति तज्ज्येष्ठ मूलमेषामवृक्षामेति तन्मूलबर्हणी यन्नासहन्त तदशाढाः यदश्रोणत् तच्छ्रोणा यदश्रुणोत् तच्छ्रविष्ठाः यच्छतमभिषज्यन् तच्छदभिषक् प्रोष्ठपदेष्वद यच्छन्त रेवत्यामरवन्त अश्वयुजोरयुञ्जत अपभरणेष्वपावहन् तानि वा एतानि यमनक्षत्राणि यान्येव देवनक्षत्राणि तेषु कुर्वीद यत्कार्ये स्यात् देवस्य प्रातः प्रसवः वर्णस्य सा यमासोपानः यत्प्रतीचैदम् रातस्तनात् प्राचीनगम् सङ्गवात् ततो देवा अग्निष्टो मन्निरमिमत तत्तदात्तवीर्यन्यर्मार्गः मित्रस्य सङ्गवः तत्पुण्यन्ते जस्यः तस्मात्तर्हि पशवः समाजन्ते तत्प्रतीचीनगम् सङ्गवात् प्राचीनम् मध्यन्तिनात् ततो देवा उक्थम् निरमिमत तत्तदात्तवीर्यन्यर्मार्गः बृहस्पतेयर्मध्यन्दिनः तत्पुण्यम् ते दस्यः तस्मात् तर्हि ते क्निष्ठन्तपति यत्प्रतीचेनम् मध्यन्दिनात् प्राचीनमपराह्णात् ततो देवाशोडशिनम् निरमिमत तत्तदात्तवीर्यम् निर्मार्गः भगस्यापराह्णः तत्पुण्यन्ते दस्यः तस्मादपराह्णे कुमार्यो भगमिच्छमानाश्चरन्ति प्राचीनगुंसायात् ततो देव अतिरात्ररमिमत तत्तदात्तवीर्यम् निर्मार्गः वरुणस्य सायम् तत्पुण्यम् तेजस्यः तस्मात्तर्हि नामृतम् वदेत् ब्राह्मणो वाष्टाहिंशो नक्षत्राणाम् सवादस्याह्नः पञ्चपुण्यानि नक्षत्राणि चत्वार्यश्रीलानि तानि यच्च परस्तान्नक्षत्राणाम् यच्चावस्तात् तान्येकादश ब्राह्मणाद्वादशः यदेवम् विद्वान् संवत्सरम् व्रतम् चलति संवत्सरेणैवास्य व्रतम् गुप्तम् भवति सवानस्याह्पञ्च पुण्यानि नक्षत्राणि चत्वार्यश्लीलानि तानि न वा आग्नेयी रात्रिः ऐन्द्रमः तान्येकादश आदित्यो द्वादशः त एवम् विद्वान् संवत्सरम् व्रतम् चरति संवत्सरेणैवास्य व्रतम् गुप्तम् भवति ब्रह्मादिना वदन्ति कति पात्राणि यज्ञम् वहन्तीति त्रयोदशेति ब्रूयात् स य ब्रूयात् कस्तानिरमिमीतेति प्रजापतिरुति ब्रूयात् स य ब्रूयात् प्राणापादाभ्यामे निरमिनीत निरमिनीता वाच ऐन्द्रवायवम् दक्षक्रतुभ्याम् नेत्रावरुणम् श्रोत्रादाशिनम् चक्षुषः शुक्रावन्थिनोः आत्मन आव्रयणम् अङ्गेभ्य उक्थ्यम् आयुषोद्ध्रुवम् प्रतिष्ठा जा यज्ञम् वावतम् प्रजापतिर्निरमिमीत स निर्मितो नाध्रियतसमव्रीय स चेतान् प्रजापतिरपि वापा न पश्यत् तान्निरवपत् कैर्वै स यदपि वापा भवन्ते यज्ञस्य धृत्या असंलयाय ऋतमेव परमेष्ठि ऋतन्नात्येति कृते समुद्र आहितः कृते भूमिरिजग्विश्रिता अग्निस्त्यग्नेन शोधिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितम् वैश्वानरस्य तेजसा ऋतेनास्य निवर्तये सत्येन परिवर्तये तपसा स्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये तदृतम् तत्सर्त्यम् तद्भृतम् तच्छकेजम् तेन शकेजम् तेन राध्यासम् यद्धर्मः पर्यवर्तयत् अन्तान् पृथिव्यादिवः अग्निरेषा न ओजसा वरुणोऽधीतिभिः सह इन्द्रो मरुद्भिः सखिभिः सह तप आक्रान्धुष्ण्यः शिरस्तपस्याहितम् वैश्वानरस्य तेजसा ऋतेनास्य निवर्तये सत्येन परिवर्तये तपसा स्यानुवर्तये शिवेनास्योपवर्तये षड्मेनास्याभिवर्तये तद्वृतम् दत्सत्यम् तद्व्रतम् दच्छकेयम् तेन शकेयम् तेनध्यासम् यो अस्याः पृथिव्यास्त्वधि निवर्तयत्योषधीः अग्निरेषानवोजसा वरुणोधि इतिभिः सह इन्द्रमरुद्भिः सखिभिः सह अग्निस्तिग्नेन शोषिषा तपाक्रान्तमुष्णिहा शिरस्तपस्याहितम् वैश्वानरस्य तेजसा कृतेनाहास्य निवर्तये सत्येन परिवर्तये तपसास्यानुवर्तये शिवेनास्योपवर्तये शङ्नास्याभिवर्तये तृदम् दच्छत्यम् तद्वृतम् दच्छकेजम् तेन शकेदम् तेन गाध्यासम् एकम् मासमुदसृजत् परमेष्ठी प्रजाभ्यः तेनाभ्यो महा आवहत् अमृतम् मर्त्याभ्यः प्रजामनुप्रजायसे खलु ते मर्त्यामृतम् ये नमासा अर्धमासाः ऋतवः परिवत्सराः येन ते ते प्रजापते ईजानस्य न्यवर्तयन् तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे अग्निस्लिग्नेन शोचिषा तप आक्रान्तवृष्णिहा शिरस्तपस्याहितम् वैश्वानरस्य तेजसा ऋतेनास्य निवर्तये सत्येन परिवर्तये तपमसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये तदृतं तत्सत्यम् तद्व्रतम् तच्छकेयम् तेन शकेयम् तेन राध्यासम् देवा वै यज्ञे कुर्वत तदसुरा अकुर्वत तेऽसुरा ऊर्ध्वम् पृष्ठे द्यो नापश्य केशानग्रे वपन्त अथ श्मश्रोणि अथोपपक्षौ ततस्तेवाञ्च आयन् पराभवन् यस्यैवम् वपन्ते अवामेते भवते अथदेवा ऊर्ध्वम् पृष्ठेभ्यो पश्यन् ततोपपक्षावग्रे वपन्दा अथ श्मश्रोणि अथ केशान् यस्यैवम् वपन्ते भवत्यात्मना अथोसु वर्गम् गोगमेते अथैतन्मनुर्वक्त्रे मिथुनमपश्यते सश्मश्रूण्यग्रेव अथोपपक्षोशाले तथो वैष प्राजायत प्रजया पशुभिः यस्यैवम् वपन्ते प्रजया पशुभिर्मिथुनेर्जायते देवासुराः सङ्ग्यक्ता आसन् ते संवत्सरे व्यायच्छन्त ताम् देवाश्चातुर्मास्यैरेवाभिप्रायुञ्जत वैश्वदेवेन चतुरो वासो वृञ्जतेन्द्रराजानः ताञ्छि वृषन्निचावर्तयन्तपरि च वरुणप्रभासेश्चतुरो वासो वृञ्जतपरुणराजानः ताञ्छि वृषन्निचावर्तयन्तपरि च सागमेधैश्चतुरो वासो वृञ्जत सोमराजानः ीर्षन्नि चावर्तयन्तपरि चा संवत्सर उपजीवासेत तामेषामभृञ्जत ततो देवा अभवन्न परासुराः यदेवम् विद्वागश्चातुर्मास्यैर्यजते भ्रातॄयस्यैव मासो भृत्वा शीर्षन्नि च वर्तयते परि च येषा संवत्सर उपजीवा वृङ्क्ते ताम् धास्यभ्यातृयः <धाद्रु> परा भवति लोहितायसेन निवर्तयते यद्वाज्जिमामग्निलभृतावागते निवर्तयति एतदेवैनागम् रूपम् कृत्वा निवर्तयति सा लश्व भूयसी भवन्त्येति प्रचाल्यते यदेवम् विद्वान् लोहितायसेन निवर्तयते एतदेव रूपम् कृत्वा निवर्तयते स ततपश्वश्र्वो भूयान् भवन्नेति प्रैवजायते त्रेण्या शल्यानि वर्तयेत त्रीणि त्रीणि वै देवानाम् वृद्धानि त्रीणि छन्दा पुंसि त्रीणि सवनानि त्रयणि मे लोकाः रथ्यामेव तद्वीर्य एष लोकेश पदतिष्ठते यच्चादुर्मास्य राज्यात्मनो नापद्येत् देवेभ्य आवृष्ट्येत चतुर्षु चतुर्षु मासेषु निवर्तयेत परोक्षणेव तद्देवेभ्यः आत्मनो पद्यत्या आद्रष्टाय देवानाम् वा एष आनीतः यश्चादुर्मास्य याधी यदेवम् विद्वानि च वर्तयते परि च देवा नास्य रुद्रः प्रजाम् पशो नभिमन्यते आदुषः प्राणादपानगुम् चक्षुः सन्तनो चक्षुषश्रोत्रोत्रात्मनः पृथिवेगं सन्तनोन्तरिक्षाद्य इन्द्रोदीतो अस्तभिः वृत्राण्यप्रतिष्कुलः जघाननवतेर्नव इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् अद्विदच्छर्यणावति अत्राहगोरमन्वता रामत्वष्टुरबीच्यम् इत्था चन्द्रवसो गृहे इन्द्रमिद्गाथिनो इन्द्रगिद्धर्योः स च सम्मिश्र आपचोयुता इन्द्रो वज्रीहिरण्यजः इन्द्रो दीर्घायचक्षसे आसूर्यगुं रोहयद्दिविगोभिरद्रिमैरयत् इन्द्रवाजेषु न अव सहस्रप्रधनेषु च उग्रमुग्राभिरोदिभिः तमिन्द्रम् वाजयामसे महे वृत्रायहन्तवे सवृषा कृतः कोऽष्ठः सबले हितः युम्नेः शोके ससौम्यः गिरावज्रो न संहृतः सबलोऽनपच्युतः अपक्षुरुग्रोऽस्त्रितः देवासुराः सङ्ग्यक्ता आसन् स प्रजापदरिन्द्रम् ज्येष्ठम् पुत्रमपन्यधर्ता नेते प्रह्रादो हमेका याधवः विरोचनग्रस्वम् पुत्रमपन्यधर्ता न् देवा अहनन्निति ते देवाः प्रजापतिमुपसमेत्योचुः नाराजकस्य युद्धमस्त्यैन्द्रमन्विच्छामेति तञयज्ञक्रतुभिरन्वैच्छन् तञयज्ञक्रतुभिर्मान्वविन्दन् तमिष्टिभिरन्वैच्छन् तमिष्टिभिरन्वविन्दन् तदिष्टीदामिष्टि त्वाम् येष्टजोहमी नाम ष्टरित्या चक्षते परोक्षेण परोक्षप्रियादेवाः तस्माग्ना वैष्णवमेकादशकपालन्ये क्षणीयन्निरवपन् तदपद्रुत्यादन्वता तान् पत्नी संयाजान्तपुपानयन् ते तदन्तमेव कृतो दद्रवन् ते प्रायणेयमभिसमारोहन् ैवन्त उपानयन् ते तदन्तमेव कृत्वो दद्रवन् तार्यभिसमारोहन् तदवद्वृत्यादम्वत तानिगान्त उपानयन् ते तदन्तमेव कृत्वो दद्रवन् हि देवा अकुर्वत इति देवा अकुर्वत इत्युवै मनुष्याः कुर्वते ते देवा ऊजो यद्वा इदमुच्चयेन यज्ञेन चराम तन्नोऽसुराः पाप्मानुविन्दन्ति उपागुंशोपसदाचराम तथा नोऽसुराः पाप्मानानुवेत्स्यन्तीति त उपागुंशोपसदमतम् वद इस्रजेवसामिधेनेरणोच्य gharama gharya स्रुवेणाघारमाघार्य तिस्रः पराचीराहुजेरुहुत्वा स्रुवेणापसदञ्जुहवाञ्चक्रुः उग्रम् वचो अपावधेन्द्वेषम् वचो अपावधे स्वाहेतिग्रम् वचः एनश्च वेद त्वञ्च द्वेषम् वचः एतगम् हवापतच्चतुर्धापहितम् पाप्मानम् देवा अपजग्हिरे तथो एवैतदेवम् व्यव्यजमानः तिस्रगेवसामिधेने रणोच्य स्र्वेणाघारमाघार्य तिस्रः पराशीराहुतेरुहुत्वा स्र्वेणोपसदम् जुहोति उग्रम् वचो अपावधेन् त्वेषं वचो अपावधी गुस्वाहेति अशनया विवासे हवा उग्रम् वचः येनश्च वैरहत्यम् च त्वेषं वचः एतमेव तच्चतुर्धाभिहितम् पाप्मानम् यजमानोपहते तेऽभिनेयैवाः पशुमा लभन्त अह्न एव तद्देवा अवर्तिम्बात्मानम् मृत्युमपजघ्निरे तेनाभिनेयेव रात्रे प्राचरन् अह्न एव तद्यजमानो वर्तिम् पाप्मानम् भ्रातृव्यानपनुदते तेनाधीयेव रात्रेः प्रचरेत् रात्र्या एव तद्यजमानो वर्तिम् पाप्मानम् भ्रातृव्यानपनुदते स केश उपवसखीदेहङ् देवत्यः प्रशुरा लभ्यते वयम् वा अस्मिल्लोके यजमानः अस्थि च वांसम् च अस्थि चैवतेन मागुम् सञ्च यजमानः सग्निः स्कुरुते ता वा एताः पञ्च दैवताः अग्नेशो वा भग्व्यर्मित्रावरुणो पञ्चपञ्चीवैरमानः त्वम् माघुम्सग्निस्नावास्थिमज्जा एतमेव तत्पञ्चधा विहितमात्मानम् वरुणपाशान्मुञ्चति भेषजतायै निर्वरुणत्वाय तगम् सप्तभिच्छन्दोभिः प्रातरः परम् तस्मात्सप्त चतुरोत्तराणि छन्दागंस्य प्राकरणवाकेनोच्यन्ते त्वमेतजोपसमेत्योपासीदम् उपासीगायता नर इति तस्मादेतजा बहिष्पवमान उपसद्यः स समुद्रमुत्तरतः प्राज्वलद्भूं यन्तेन एष वामस समुद्रः यच्छा त्वालः एष यद्वेद्यन्तः तदेतत्तिशलन्त्रिपोरुषम् तस्मात्तन्त्रिभितस्तम् खनन्ति ससुवर्णरजताभ्याङ्कुशेभ्याम् परिगृहेत आसीत् कैयदस्या अध्यजनयन् तस्मादादित्यः अथ यत्सुवर्णरजताभ्याङ्कुशेभ्याम् परिगृहेत आसीत् सास्य तन्त्रिवृता ददत तन् त्रिवृताहरम् यावती त्रिवृतो मात्रा तम् पञ्चदशेनाभिप्रास्तुवत तम् पञ्चदशेनादत तम् पञ्चदशेनाहरम् यावती पञ्चदशस्य मात्रा तगुम् सप्तदशेनाभिप्रास्तुवत तगुम् सप्तदशेना ददत सप्तदशेनाहरन् यावति सप्तदशस्य मात्रा तस्य सप्तदृशेन क्रियमाणस्य तेजो हरोपत तमेकविपुंशेनाभिप्रास्तुवत तमेकविपुंसेनाददत तमेकविपुंशेनाहरन् यावत्येकविपुंशस्य मात्रा तेज त्रिवृतास्तुवते त्रिवृतैव तद्यजमानमाददते तन्त्रिवतैव हरन्ति यावते त्रिवृतो मात्रा अग्निर्वै त्रिवृज यावद्वा अग्नेर्दहतो धूमगुवेत्याेति तावतेऽत्र कृतो मात्रा अग्नेरेवैनन्दते मात्रुज्यगुंसलोकताङ्गमयन्ति अथयत्पञ्चदशेन स्तुवते पञ्चदशेनैव तद्यजमानमाददते परम् पञ्चदशेनैव हरन्ति यावती पञ्चदशस्य मात्रा चन्द्रमा पञ्चदशः एष हि पञ्चदश्याम पक्षीयते पञ्चदश्यामापूर्यते चन्द्रमस एवैनन्दत् मातृंसायुज्यगुंस लोकताङ्गमयन्ति अथ यत्सप्तदशेन स्तुवते सप्तदशेनैव तद्यजमानमाददते त्रगुम् सप्तदशेनैव हरन्ति यावती सप्तदशस्य मात्रा प्रजापतिर्वै सप्तदशः प्रजापतेरेवैनन्दत् मात्रापुंसायज्यगम् सलोकता अङ्गमयन्ति अशयदेकविपुंशेन स्तुवदे एकविपुंशेनैव तद्यजमानमाददते तमेकविपुंशेनैव हरन्ति यावत्येकविपुंशस्य मात्रा असौ वा आदित्य एकविपुंशः आदित्यस्यैवैनम् तत् मात्रापुंसायज्यगम् स लोकता अङ्गमयन्ति ते कुश्यो व्याघ्नान् त्रे अभवताम् अहरेव सुवर्णाभव रजता रात्रिः स यदादित्यभुरेति एतामेव तत् सुवर्णाम् कुशीमनु समेति अथ यदस्तमेति एतामेव तद्रजताम् कुशीमनुसंविशति प्रह्रादो हवेकायाल् भवः विरोचनज्ञस्त्वम् पुत्रमुदास्य तस्मात्प्रदरात् गन्माचाने ये वै सोमाः किरराङ्वल् अथ एव सः तस्माच्चतुष्टोमः तच्चतुष्टोमस्य च दृष्टो मम् तदाहुः प्रतमानितानि ज्योतेगुंसि न एतस्य स्तोमा इति त्रिवत्पञ्चदशः सप्तदश एकविपुंशः एतानि वातानि एतस्य स्तोमाः सोऽब्रमेत् सप्तदशेन क्रियमाणोऽव्यशिषिभिरज्यतमेति तमश्विनो धानाभिरभिषज्यताम् पोषाकरम्भेण भारतीपरिपापेण मित्रावरुणोपयस्यया तदाः पोष्णः करम्भः भारतीपरिपापः निद्रावरुणयोः प यस्याथा कस्मादेतेषादम् हविषामिन्द्रमेव यजन्तीति एताक्येनम् देवता इति ब्रूजाद् दे। एतैर्हरिर्भिरभिषज्यद्यस्तस्मादिति कम्बस गोष्टाकपालेन प्रातःसवनेऽभिषज्यन् रुद्रा एकादशकपालेन बाध्यन्दिने सवने विश्वे देवा द्वादशकपालेन त्रिनेयसवने श्रयदष्टाकपालान्प्रादस्यवने कुर्यात् एकादशकपालान् माध्यन्दिने सवने यादशकपालाविस्तृतेयशवने निरमतद्यज्ञस्य क्रियेत एकादशकपालानेव प्राजस्सवने कुर्यात् एकादशकपालान्माध्यञ्जिने सवने एकादशकपालाविस्तृतीयशवने यज्ञस्य सममहत्वाय तदाहो यद्वशोनाम् राजः सवनम् रुद्राणाम् बाधन्ति भगम् सवनम् विश्वेषाम् देवानाम् द्वितीयसवनम् अथ कस्मादेतेषा गम् हरिषामिन्द्रमेव यजन्तीति एताक्येनम् देवता इति ब्रूदात् एतैर्हरिर्भिरविषजस्तस्मादिति तस्या तमेतेषु सप्तसु छन्दस्वश्रयन् यदश्रयन् तच्छ्राजन्ते यस्य श्रावयन्ते यत्त्वम् यदवारयन् तद्वारवन्ते यस्य वारवन्ते यत्त्वम् तस्यावाच एवावपादादभिभयोः तस्मा एतानि सप्त चतुरुत्तराणि छन्दागस्युपादधो तेषामतित्रेण्यरिच्यन्त न त्रेण्युदभवन् स बृहतीमेवास्पृशत् द्वाभ्यामक्षराभ्याम् अहोरात्राभ्यामेव तदाहुः प्रचमासा देवाक्षरा बृहति यस्याम् तत्प्रत्यतिष्ठत् द्वादशपौर्णमास्यः द्वादशाष्टकाः द्वादशामावास्याः एषा मावसा देवाक्षरा बृहति यान्तप्रत्यतिष्ठ इति यानि च छन्दागस्यत्यरिच्यन्त यानि चलादभवन् तानि निर्णेर्याणि हीनान्यमन्यन्त सा ब्रमेर्बृहति मामेव भूत्वा मामुपसग्श्रयतेति चतुर्भिरक्षरैरनुष्ठुबृहतीन्नादभवत् चतुर्भ्यरक्षरे पङ्क्तिर्बृहतीमत्यरिच्यत तस्यामेतानि चत्वार्यक्षराण्यपच्छिद्यादुधात् ते बृहति एव भूत्वा बृहतेवपसमश्रयता अष्टाभिरक्षरे रुष्णिग्बृहतेन्नादभवत् अष्टाभिरक्षरे स्ृष्टुर्बृहतीमत्यरिच्यत तस्यामेतान्यष्टावक्षराण्यपच्छिद्यादुधात् ते बृहती एव भूत्वा बृहतेमुपसमश्रयताम् द्वादशभिरक्षरे बृहतीन्नोदभवत् द्वादशभिरक्षरेण जगति बृहतीमत्यनिश्चत तस्यामेतानि द्वादशाक्षरा अन्यवच्छिद्या दधात् हे बृहती एव भूत्वा बृहतीमुपसमश्रयताम् सोऽ प्रजापतिः छन्दायुंसि रथो मे भवता युष्माभिरहनेतमध्वानमनुसञ्चरात्रे च जगति च पक्षाप भवताम् उष्णि तिष्टुप् च प्रष्ट्यो अनुष्टुप् च पङ्क्तिश्च धुर्यो बृहत्येवोद्धिरभवत् स एतो रथमास्थाय एतमध्वानमनुस एतगुम् हवे छन्दो रथमास्थाय ये ये येनेष एतत्सञ्चरति य एवम् विद्वान् सोते यो इति प्रथमाष्टके पञ्चमः प्रश्नः समाप्तः